धर्मप्रश्नमतो ब्रूयादार्यः सत्येन मानवः विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः विकर्णेन यथा प्रज्ञामुक्तः प्रश्नो न राधिपाः भवन्तोऽपि हि तं प्रश्नौ विब्रुवन्तु यथा मति यो हि प्रश्नन्न विब्रूया धर्मदर्शी सभाङ्कतः अनृतेवा फलावाप्तिस्तस्यास्वर्धं समश्नुते यः पुनर्वर्तिथं ब्रूयाद्धर्मदर्शी सभाङ्गतः अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः अत्राप्युदाहरन्ती ममितिहासं पुरातनं प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रोऽविचनः कन्याहेतोराङ्गिरसं सुधन्वानोपाद्रवत् अहञ्ज्यायानहञ्ज्यायानिति कन्येप्सया तदा तयोर्देवनमत्रासे प्राणयोरिति न श्रुतं तयोः प्रश्नविवादोऽभूत् प्रह्लादं तावपृच्छतां ज्यायान् आवयोरेकः प्रश्नं प्रब्रूहि मामृषा स वै विवदनातुन्वानों विलोकयन तम सुधनवाब्रवीत क्रुद्धों ब्रह्मदंड इवज्वल यदि वै वक्ष्यसि मृषा प्रहलादाथ न वक्ष्यसि शतधातेशिरो वज्री वज्रेण प्रहरिष्यति